अथ नवमः सर्गः सुतीक्ष्णेनाभ्यनुज्ञातम् प्रस्थितम् रघुनन्दनम् हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् अधर्मम् तु सुसूक्ष्मेण विधिना प्राप्यते निवृत्तेन च शक्योऽयम् व्यसनात् कामजादिहा त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत मिथ्यावाक्यम् तु परमम् तस्माद्गुरुतरा बुभौ परदाराभिगमनम् विना वैरम् च रौद्रता मिथ्यावाक्यम् न ते भूतम् न भविष्यति राघव कुतोऽभिलषणम् स्त्रीणाम् परेषाम् धर्मनाशनम् तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन मनस्यपि तथा राम चैतद्विद्यते क्वचित् स्वदारणिरतश्चैव नित्यमेव नर्पात्मजा धर्मिष्ठः सत्यसन्धश्च पितुर्निर्देशकारकः त्वयि धर्मश्च सत्यम् च त्वयि सर्वम् प्रतिष्ठितम् तच्च सर्वम् महाबाहो शक्यम् वोढुम् जितेन्द्रियैः तव वश्येन्द्रियत्वम् च जानामि शुभदर्शना तृतीयम् यदिदम्रौद्रम् परप्राणाभिहिंसनम् निर्वैरम् क्रियते मोहा तच्छते समुपस्थितम् प्रतिज्ञातस्त्वया वीरदण्डकारण्यवासिनाम् ऋषीणाम् रक्षणार्थाय वधः संयति रक्षसा एतन्निमित्तम् च वनम् दण्डक इति विश्रुतम् प्रस्थितस्त्वम् स हभ्रात्रा धृतबाणशरासनः ततस्त्वाम् दृष्ट्वा मम चिन्ताकुलम् मनः त्वद्वृत्तं तदृत्त चिंतिया वैभव निःश्रेयसंहित नि मे रोचते वीरगमनम दंडका वदंतता मम तमि बाणधनुष्पा निर्भ्र सह वन गृष्वा वनचरा सर्वान्किकुआ शरव्यय क्षत्रियाणामिह धनुर्भुता शस्येन्धनानि च समीपतस्थितम् तेजो बलमुच्छ्रयते भृशम् पुरा किल महाबाहो तपस्वी सत्यवाञ्छुचिः कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे तस्यैव तपसो विघ्नम् कर्तुमिन्द्रः शचीपतिः खड्गपाणिरथा गच्छदाश्रमम् भटरूपधृत् तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः सन्न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः सतच्छस्त्रमनुप्राप्यन्यासरक्षणतत्परः वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः यत्र गच्छत्युपादातुम् मूलानि च फलानि च न विनायाति तम् खड्गम् न्यासरक्षणतत्परः नित्यम् शस्त्रम् परिवहन् क्रमेण स तपो धनः स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम् ततः स प्रमत्तो धर्मकर्षितः तस्य शस्त्रस्य संवासाज्जगामनरकम् मुनिः एवमेतत्पुरावृत्तम् शस्त्रसंयोगकारणम् अग्निसंयोगबद्धेतुः शस्त्रसंयोग उच्यते स्नेहाच्च बहुमानाच्च स्मारये त्वान्न शिक्षये न कथञ्चन सा कार्या गृहीतधनुषा त्वया बुद्धिर्वैरम् विना राक्षसान् दण्डकाश्रिता अपराधम् विना लोको वीरणमंस्यते क्षत्रियाणाम् तु वीराणाम् वनेषु धनुषा कार्यमेतावदार्तानामभिरक्षणम् क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यता कदर्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् पुनर्गत्वा त्वयोऽध्यायाम् क्षत्रधर्मम् चरिष्यसि भवेत् प्रीतिः यदि राज्यम् हि सन्न्यस्य भवे स्व मुनिः धर्मादर्थः प्रभवति धर्मात् प्रभवते, धर्मा प्रभवते सुखम् धर्मेण लभते सर्वम् धर्मसारमिदम् जगत् आत्मानम् नियमैस्तैस्तैः कर्षयित्वा प्रयत्तनतः प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम् नित्यम् शुचिमतिः तपोवने सर्वम् तु विदितम् तुभ्यम् त्रैलोक्यामपि तत्त्वतः स्त्री चापलादे तदुपाहृतम् मे धर्मम् च वक्तुम् तव कः समर्थः विचार्य बुद्ध्या तु सहानुजेन इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे नवमः